मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं 41 शुक्रोपदेशवर्णनं श्रीगणेशाय नमः मुद्गल उवाच दूदं गजाननस्तत्र प्रेषयामासङ्करं सगत्वा दैत्यपं दक्ष जगादशृणुतद्वचः शिव उवाच शृणु लोभासुरत्वमेव जनं हितकारकं करिष्यसि यदा सां न भविष्यसि तदा सुखी गजाननस्वयं साक्षाद्ब्रह्मणां नायकस्मृतः स आगदसुरैः सर्वैर्देवेन्द्रैर्मुनिभिर्वृतः नगरप्रान्तभागे ते दे दशयोजनदूरतः संस्थितेन च दैत्येश्च प्रेषितोऽहं विशेषतः मदीयवरदानेन निर्भयोसि निर्भयो मानद अधस्त्वदीयरक्षार्थं रक्षार्थं मां प्रभु ब्रह्माण्डं वशमानीय त्वं सर्वेशोसि शोसि साम्प्रतं देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरन्तरम् अधुना वैरमुत्सृज्य स्नेहं गुरु महामदेवाः स्वपदगाः सन्धु ब्राह्मणा कर्मकारिणः गजाननस्य वर्दस्व दानव भुङ्क्ष्वभोगान्महाभाग नो महाभाग त्वां स हनिष्यति शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः जगादत्तम् तिरस्कृत्य महादेवं मदान्विदः लोभासुर उवाच कोस्सौ गजाननः शम्भो त्वम् भेदकर एव च मोह यस्य अधुना मां किं देवानां पक्षगः पुरः अधुना त्वा महादेव किं करोमि च दूतस्त्वं गच्छदेवं गजाननं वदवाक्यं मदीयं त्वं हनिष्यामि सदेवकं गजाननं न सन्देहः पश्य मे पौरुषं महद एवं निर्भर्षिद शम्भुक्रोधारुण विलोचनः जगाद तं महादैत्यं विशेषज्ञः शिव उवाच मृत्युयोगेन पापिष्टत्वं युतोऽस्सि संशयः गजाननं तेन लोभ निन्दसिब्रह्मनायकम् शिवः पुनः सुदुर्बुद्धिमेव मुक्त्वा ययौ प्रभुं गजाननं प्रणम्यादौ वृत्तान्तं सञ्जगौ पुनः तदा कर्ण्यवचक्रूरं गजाननप्रतापवान् क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्तदः अनन्दादित्यसङ्काश्य परश्युः कालभीदिदः अययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परं भयभीदाययुस्तं देहहाकाररवाकुलाः दानवेन्द्रैः सभा संस्थं लोभं दृष्ट्वा सुखं वचः जगोर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् नागराऊजुः किं स्थितोऽसि महादैत्य लोभज्वालासमाकुलम् अस्त्रं समागतम् क्रूरं दाहयामास दानवान् तेषाम् तद्वचनम् श्रुत्वा भयहर्षसमन्वितः जगाद दानवाधीश्यान् महाकोपयुधोऽसुरः लोभासुर उवाच गजाननोमरैः सार्धं समायाधो न संशयः समर्धो दृश्यते नूनं यस्यास्त्र बलमीदृश्यम् तस्य तद्वचनं श्रुत्वा दानवेन्द्रा महाबलाः ऊजु प्राञ्चलय सर्वे मा भयं कुरु सत्तमा गजाननं हनिष्यामः पश्यदि त्वयि एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमादृताः तदस् तैर्यमसङ्काशायैर्दृष्ठं तेजोमयं महद अस्त्रं ब्रह्मपदे क्रूरं प्रलयस्य प्रकाशकं तदाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा आहा कारर वा सर्वे पपलोर्भयविह्वलाः दानवेन्द्रैस्तदो दक्ष मेखास्त्रं मोचितं महद सर्वदो मेखा ववृषुर्दारुणं परं जलं सर्वं महास्त्रं तच्चोषयामासत्तत्क्षणाद मेखस्तं ते तदो मेखा निस्तेजस्का बभूविरे दैत्येंद्रान् दैत्य मुख्यालय परुत दा चदेद पपलुर्यतृ्वा परमाचर्य स लोभासुर आयौ रू महाते जास्तृत्थ पश्यदो दैत्यराजस्य ज्वाला समागता रथं साश्वं ददाः अपि ततः शस्त्राणि सर्वतः लोभासुरो ययौ तं प्रणम्य महाभागं पप्रच्छ विनयान्विताः लोभासुर उवाच स्वामिन् गजाननो देव आगतस्स स महाबलः दाहयामास शास्त्रेण निवार्येण रथं समे तन्निवृत्त्यर्थमेवाहं न पश्यामीह किञ्चन अदस्थे शरणं नाथप्रातोऽहं रक्षमां मुने मनोवाणीमयं सर्वं तस्मान मृत्योर्नमे भवेद नाम रूप मां दक्ष्यति प्रभो यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु साम्प्रतं देवानां शरणं नाथ न गमिष्यामि कर्हितिद अदो वद महाभाग उपायम् इददायकम् त्वदाधारं च योगेन्द्रजीवनं मे प्रवर्तते इति तस्य वच श्रुत्वा शुक्रसर्वज्ञमुख्यकः लोभासुरं भयोद्विग्नं तं जगादप्रकर्षयन् शुक्र उवाच मा कुरुष्वभयं वत्स शृणु वचनं हितम् तत्समाचार दैत्येन्द्र तदः क्षेमं भविष्यति गजाननप्रसन्नात्मा यदिच्छदि महासुर तदेव सत्यरूपं वै भविष्यदिनसंशयः न संशयः ब्रह्मणां नायकप्रोक्तो विनयान्विदः नायं देवाधिपो दैत्यसुरासुरमयप्रभुः एवं तस्य वच श्रुत्वा लोभस्तं पुनरब्रवीद निःश्वस्य देव पैः सार्धं कथं योद्धुं समाययौ मध्यस्तश्चेन्महाभागं तं गच्छामि शरण्यकं न लज्जाते न मे संशयं चिन्ति हृत्स्थितं शुक्र उवाच देहरूपं महद्ब्रह्म देह्यात्मा वेदभाषितं तयोर्योगे महादैत्य बोधोऽसि पदवाचकः बोधनाशे विदेहाख्यं ब्रह्मसौच्यं प्रकीर्तितं सुसिद्धिदं तदेवत्वं त्वं विजानीहि सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते तदेव गजशब्दाख्यं ब्रह्मवेदे प्रकीर्तितं गजचिह्नेन गच्छन्ति योगिनो हि गजाननं तेन नाम्ना समाख्यादो मुनिभिस्तत्त्वदर्शिभिः यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा तेनैव स्थापितं विश्वं बोधरूपं महामदे स्वस्वधर्मयुधं पूर्णं तत्रायं संस्थितो भवद पादाले दानवानां च राज्यं स्वर्गे दिवौकसां पृथिव्यां मानवानां वैतृविधं रजितं पुरा यदा देवामहाभागलोभयुक्ता मदान्विदाः पादालस्तान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः तदायम् देहधारी च दैत्येभ्यो वरदो भवद देवानां विघ्नसन्दा गणेशसर्वभावविद ततो दैत्यगण सर्वे बलयुक्ता सुरेन्द्रकान् जघ्नो वीरश्रिय राजन् विघ्नहीनप्रभावदः यदा दैत्या महालोभलोभयुक्ता विशेषतः देवानां जीवनाशार्थमभवन् कर्मखण्डनाद् तदा विघ्नेश्वरस्साक्षाद्देहं धृत्वा जधानवान् अत्वा देवा हवा स्वस्थान देवरोधर्मपरासुरादेस्वर्मरधा यदा तद यं ब्रह्म संचिते चिंतामिर्ब्तूप स्वयं बुद्धिभ्रा महामे सिद्धिस्ताभ्याशेलिब्रह्मयक स्वसंवेद्यात्मनस्तस्य दर्शनं जायते यतः तेनायं गणपस्वानन्दवासी कथ्यते बुधैः अधस्तस्यैव दैत्येन्द्रशरणं सुखदं भवेद् अन्यथा सकलं हत्वा मरिष्यसि न संशयः गजाननस्य दैत्येशस्त्रं ब्रह्ममयं ह्यतः तस्मै कुरु नमो भक्त्या चान्दरूपं भविष्यति ओं तत्सदिश्रीमदे पुराणोपनिषदि मौद्गले महापुराणे चुर्दे खंडे गजाननजरि शुक्रोपदेशर्णनमकशोध्याय ओं